मेधाः श्वेतस्विशक्तिवेता महेश्वेः ते बाल्यवेतमनसापितस्थु विश्वेन्द्रत्यानि चक्रुः रागे यज्ञतो रागे देवीणादिदेवम्वाः प्रश्वेतम् मधुश्यरेखे आवायोप्रयाभिः प्रभागमच्छापिगतीमनेजा पद्यमानः कविः कविमेक्षदिप्रयाभियज्ञम् मायोम् पादस्वस्त्यभ्यस्तदानः प्रजापदयेनश्वा जाता निपदिता बभूव यत्कामास्ते युपमस्कन्नास्तु वयम् कस्यामुपदे ृहन्तम् अस्मिन्भरे वाजसाधौ प्रजापतिम् प्रथमजामितस्यामेव प्रजापदे पुराणः देवानाम् विहाय प्रजानाम् पथविश्वस्य निगरत्परस्वाः अवर्णादेव विहवेतस्व नवे लोकात् परिशोधश्च परापतो निपत उद्वदश्च प्रजापतेष्वतिर्जीवसन्येव्यम् प्रजापतिम् प्रथमैज्ञयानाम् एवानामग्रम् सुवीर्यम् यत्पोरंविष्यगुनाहिमस्मे रायी च राजबुद्ध्यः यः शोनागुम् रक्षिताविष्ठितानाम् प्रजापतिप्रथमजातस्य सहस्रधामायुवदागम् हैर्णः होमाभूषणे मो देवो होमाभूषणाजतोनम् सप्तचक्रमविश्वमिन्वम् विश्वपदम् मनसा युज्यमानम्बो भूषणाभन्तरश्मिम् दिव्यन्नस्तनम् चक्रहुच्चिव्यामन्यन्तरिक्षे वस्मभ्यम् वरुदारम् वृक्षम् रायस्पोषम् विष्यतान्नाभिमस्मे धेयम्भोषाजिन्वजविश्वमिन्व हरें सोमार्यभजप्रसादो अवदयमिदेव सुधीरा विश्वान्यभुवना जान विश्वमन्यामभिलक्षा नेति स्वमाभोषणावदन्ध्ययम् मे युवभ्याम् विश्वा प्रदनालयेम उदुत्तमम् वरुणास्तभ्नाद्याम् कीर्तिन्त्यङ्कितवासः अवदेहेणस्तत्वायामि आदित्यानामवसानदक्षिणा धारयन्तः आदित्या सिसुरभूमे धारयन् यज्ञो देवानापुंसुचिरमः हे शुक्रासुदया श्रीमन्तः श्रीदन्नादित्यादिवैगप्रिये रामेण देवासुरसन्निवनः आयान्त यज्ञमुपनानुशालाः हे सौनवाजुजयव्यवसामिलम् विन्वत्प्रतिहर्यन्त तेजाः प्रयज्ञायजमाना ये मुरे आदित्या क्रामम् पितवन्तमस्मे आनपुत्रादिदे यज्ञम् आदित्या सतिबद्धे वयानेयेः अस्मेकामम् दातुसे सन्नवन्तः प्रोडाशम् कृतवन्तम् जुषन्ताम् सभायम्ना बद्धाः आदित्या क्रामप्रेताम् प्रषक्तिम् विषर्भन्नाः आदित्याङ्कामोदयभुवेम हे भवतानि जनयन्तोऽपि चिक्ष्यः श्रीदन्तपुत्रादितेरुपस्थम् तेऽर्णम् परिहरे अभिनद्याय देवाः तेऽर्णम् परिहस्ते तदा यज्ञे अस्मिन् ध्याजास्ते सन्तो अभिरिन्दुरेव अस्मभ्यम् पुत्रादिदे प्रयपुम् सदा आदित्याः कामः विषोजुषाणाः राजे अस्मान् विश्वानदेव वजनानि विद्वान् योऽध्यस्पद्युः राणमेनः भूयिष्ठान्ते नममुक्तिम् विधेम प्रवशुक्राज भाणवे भरध्वम् हव्यम् अतिम् चाग्नेयोचम् यो देव्यानिमानुजांशे अन्तर्विश्वान् विद्वानादिघादे अच्छा किल मृतयो देवजयन्तेः अग्नीयम् चद्रविनम् वीक्षमाणाः सुसन्दृशम् सुप्रदेम् अव्यवाहमधिम् मानुषाणाम् आज्ञेयत्वमस्मर्तिभ्यमीवाः अनज्ञत्राभ्यमन्तकृष्टेः पुनरस्मभ्यगुण्ठिताज्ञेयत्वम् पारव्य अस्मान् स्वस्तिभिलदुर्गाणि विश्वाः वोश्च वच्चे बहुदानवर्मे वो भवाल्लोकायतनयाय्योः प्रकारवो मनना वच्यमानाः देवद्रेजेन्द्रयथ देवयन्तः दक्षिणावाग्भाजिने प्राच्यये अविर्भ्येन्द्रन्नर्थम् जगुर्भ्रादे दक्षिणमिन्द्रास्तम् वसूयवसुपदे वसूना हित्वा गोपतिगुंशो रघोना अस्मभ्यम् चित्रम् रयिन्दाः वेदम् विश्वमभिनः पशव्यम् यत्पश्च तिरक्षदा सूर्यस्य गवाम युगोपतिरेक इन्द्र दक्षीमहि देवस्वः समिन्द्रणामनदाने युगोभिः सकंसो निर्मखवान् सर्गस्वस्त्या सम्ब्रह्मणा देवकयदस्ते सन्देवानागुंसमत्यानाम् आराक्षत्रबाधस्वदूरम् उग्रायः सम्भः पुरुः तदेन अस्मेधे हियमद्गोमदिन्द्रीधिगन् चरित्रे वाजरत्नाम् आवेशोमन सत्ता सेवेणस्पितगुंडे बृहस्पतिश्रमजूने महोभ्रजा गोमदेव अवश्यपर प्रदेक् बृहस्पतिहा यस्ते स्तनः हरस्पत्यभिनायैभिर्भि सखायवागुजतभिरोग्भिः हरस्पतेनाविभासेमधीतिभिः स्वमाधेनकुम् सोमा हन्तमाशुम् सोमा वेदम् कर्मण्यम् ददातु साधन्यम् विदर्थगुम् सहेयम् विदुश्रवणय्यवददाशस्मै अषादयुत्सत्त्वगुधो न क्रतुभिः या देधामाणि हविडा विदन्ते त्वमिमावोषे स्वामविश्वाहाः स्वन्तरिक्षम् त्वञ्ज्योतिषा तमोपमर्था या देधामाणि दिव्या पृथिव्याम् या पर्वतेश्वषधेश्वत्स ते भिन्ना विश्वये सुमनाहेणन् राजन् सामपृथिहव्यागृहाय विष्णान्मकन्दरस्य प्रियम् परोवात्रया दलवारुधाना अदे महित्रमन्वशवन्ति उभेदे विद्वदसे पृथिव्या विष्णो देवत्वम् विचक्रमे त्रेवः आते महोयो जातयेव अभियोत्राणि आभिस्पृथोमितचेद्यन् अमित्रस्य मिथया मन्यमिन्द्र आभिर्विश्वा आर्यायविशोमतारेर्दासीः अयगृश्रि अजयघ्नन् अयमृतप्रगणतयविभागाः यथा सत्यम् ग्रणदयमन्यमिन्द्रः विष्पन् ऋषम्भयदयेजरस्मान् अनुस्वसावक्ररन्नापो अस्य अवधनमध्यानाव्यानाम् सद्धितेन मनसाधविन्द्रवोधिष्ठेन हन्मनाहन्नभिद्योन् मरुत्पन्तम् ऋषभम् वा प्रधानम् अगवारिम् दिव्यगम् शासमिन्द्रम् विश्वासा हमवजय नूतनाय उग्रगम् सहोदा मेलम्भुवेम जनिष्ठा उग्रः सहजयदुराय मन्द्रवो जिष्ठो बहुलाभिमानः अवर्धन्निन्द्रम् मरुदश्चित माता यद्वेदम् दृशनद्धनिष्ठा क्वस्या विश्वश्रोरणं वशस्नेः वृत्त्वस्य विश्वे देवायुजय रयः श्यन्ते अस्तु अथे मा विश्वातनाजयासि अधेयम् वृत्नम् मरुदयम् जयेण भामेण भोगवान् अहमेनामनवे विश्वश्चन्द्राः स्वखा अवश्चकरवज्रबाहुः त्रया विस्तमोकाः महाविवृथ्यव्याष्ठसम्राट स तेन सत्पाहव्यभरेण मरुत्वा भवतीन्द्रभू इन्द्रो वृत्रमद्वृत्तदौर्ये अनादृश्यो मखवासो रीन्द्रः अनन्देऽनम्पिशोमानन्दपूर्वेः अयगुण्डाजालश्चिनाम् स एव वीरः सौ वेद्यावान् स यैकराजो जगतः परस्पाः यदा वृत्तमथरक्षो रविन्द्रः अथा भवत्तक्रतूनाम् इन्द्रो यज्ञम् वर्धयन् विश्ववेदाः हविर्णः वृत्तरन्तेमम् वज्रबाहुः विशोदृगुंहद्रिगुहितादृगुंहरेण इमै यज्ञम् वर्धयन् विश्ववेदाः प्रगर्णात् इन्द्रः यदा वृत्रमो रन्द्रः जनानाम् इन्द्रो देवाञ्चम्बराज्ञ इन्द्रदेवानामत्वलोकाः इन्द्रो यज्ञे हविषा वा इन्द्रे वृत्तस्मानभिमादिहोग्रहरण्यवादे तस्य वैगुम्पदो यज्ञस्य अभिभद्रेदो यस्याम हिरण्यवन्नाभयम् गृणोदो अभिमाधेन्द्रप्रदनासुष्णोर्मस्य हि वज्रणकृष्णोष्ठम्प्रदना सह स्वान् अथाभयम् गणरिश्वलो नः द्विदुरम् वज्रणमप्रतीक्तम् पुरोमिन्द्रम्पतिर्जनेषु तस्माय विराजहोद इन्द्रो देवानामधिकाः पुरोहितः अस्मभ्यम् जिलम्पतिभ्यादुराजये देवानाम् देवो नेयत् इन्द्रमस्कृतजर्मः हेतुराजाः अराम्यभिप्रदा भूव अभिषिध्वालिघातस्य शत्रून् पुरोभेन सम्बद्धेण नरस्पः मदिमदिरदानः विष्णुम् देवम् वरुणमोदयेभवम् मेधधा देवावयायजध्वम् राणो यज्ञमागतम् विश्वसेन प्रजापदस्मे त्रिविनेपधत्तम् मेधसा देवावयायजध्वम् विष्णुम् च देवम् वरुणम् च राजम् तानो अमीवा अबाधमानो इमै यज्ञम् विषमानावदम् विष्णो वरुणा इममध्वरायनः विषेधनामैशर्म यच्छदम् धाना ज्यो विषा नेर्दः दण्डमागुंसिकभिलेर्येरतमाश्रेष्ठा यावत् अप्रजेर्तासहोऽभिः विष्णो अयर्मणा पूर्वभूतौ विष्णो वरुणा देवायजन्तः विजा अवामीमागुंसेश्च असाशक्तै यजमानाय्योः अगुम्हो म चा वृषभा सुकृतो वृत्ति देवानाम् देवतमाश्रेष्ठः विष्णो वरुणः प्रतिहरिदन्नः इदन्न राक्रेण मोदये हरिः महेणुद्यावापृथिवीहर्ज्येष्ठे ऋचापवदाकुषयेभ्यर्घैः यत्से वरिष्ठे पृहदेधानेभिरेवैः प्रभोः प्रजय वितराणव्यधने तस्य आनाद्या वादैव्येन जनेन यातम् नहिवाम् वलूथम् सयत्सपा भुवने अश्वासा यज्ञा वा अपविंशे धीरश्वरन्ते वर्बन्तम् गर्भमपदे न्द्या वा पृथिवी सत्यमस्तु पितर्माद्रुवे भूनम् देवानामवमे अवभिः विद्यामेषम् वृजणम् जीवदानम् उर्वे वृक्षे बहुले दूरे अन्धे उपब्रुवेणवता यज्ञे अस्मिन् तथा वेये सुभये सुप्रदो मूर्ति या वार्क्रदम् पृथिवी नोभ्वात् या जाता वा तोमनाग््यामो अन्यामवदोर्णस्तोषद्वृत्रम् इन्द्राग्ने प्रजलणिभ्यः आवृत्रहनाघेभ्य विप्रः ब्रह्मणस्पदे यन्ता सूक्तस्य मोसिरने जिन्वा विश्वम् तद्भद्रै्यमन्ति देवाः बृहद्वदेव विकथय शुवीराः ज्ञम्बनवर्तनक्षदः ब्रह्माशोद्रादः जातेन जातपदिसृते ये यञ्जिम् कृणते ब्रह्मणस्पतिः ब्रह्मणस्पदेशान्रह्मणा वेशिमेघवम्नेन सुविषाजन्मना स्तोत्रे वाजम्फलदेशनादिवाना यः पितरमाभिवासने श्रद्धापना हविषा ब्रह्मणस्पतिम् ोषन्नामो अन्तः शुक्रन्ते अन्यत्पोषे महा प्रवचे पृथावजनेष्टपोषाः प्रवचे दिवः प्रवचे पृथिव्याः उभे अभिप्रेतमेपञ्चद्विवाः पृथिव्याःवादस्पमर्थाः सौर्यायै कामेण कृतम् तपजग्निःपञ्चम् अजाश्वप्पशुभावाजपस्त्यः धियम् जन्मा भुवने अर्पितः अष्ट्राम् घोषाचिरा सञ्जक्षा न भुवनादेव्यामृतशुजीनाम् दे। सुजगं हि नाम यद्धरगं जिभ्यः रेण सत्यमप्रदायन् श्रुचन्मानश्रुदेः पावकाः पचित्रमर्कङ्कणते ृतःखादयोगः पक्षस्वरुक्माःशर्मयुधन्ते प्रधातो निदातुजे यच्छता अस्मभ्यन्तानि परदायन्तः प्रेण्णा सप्तवर्षः सुरीरम् इमे इमे वरतो रामयन्ते इमे अरा वरुषो निवारन्ते गुरुद्वेष प्रजायन्ते अगवा महोभिः कृष्णे कुत्रापमादो रष्ठाः अनुदेशाय महेन्द्रियाय सत्रादेशक्षत्र इन्द्रदेवेन्द्रन्ते अस्ति अधिक्षणमिषलोकयञ्जनस्य चोददासमुपस्तुमान् प्रमुष्टोजाः हण्डपादः पुरुहोदैन्द्रः अथाषमग्रगम् सहमानमाभिषणीना स्थूलस्य राजबृहतो अमुष्टवामपिदधे अश्विन्द्रम्नाथेकोमदेशोच्छ आचय शुष्मा विषभयेत् पश्चात् वोक्त पुरस्तात् आविश्वर्लगम् सुमर्वध्ये यस्मै आदेवायिता सुरुत्रः अन्तरिक्षप्रारभमानो अश्मेः हस्ते रथा नो धर्या गुरूणि निवेशयन् च प्रसुरम् च भूम अभितम् कृशनेर्विश्वरूपम् हिरण्यसम्यग्य गतो गृहन्तम् आस्थाप्रसगुन्दमिता चित्रभावः कृष्णारजागुन्दरेन्द्रः तथा नो देवः समिता सुभाया भर्तभोजनमधरासु विजनाः श्यामाश्रुविपादो आख्यान्य्यप्रमुखम् वहन्तः तस्वक्षुतस्वर्दैव्यस्य उपस्थविश्वाभुवनानि तत्सुः विदुवर्णोऽन्तरिक्षान्यक्ष्यभीरवे बादुरस्वमेधः कष्टिकेद दा। कदमान्यागुं रश्मिरस्यादन्धियम् बालिरन्तः पुरन्धेम् ेव आविश्वे अस्त्रागमन्तु देवाः मित्रोऽयमावरणस्जोषाः भुवने यथा विश्वे प्रसादः हरन् सुराः शवः शण्णो देवा विश्वदेवा भवन्तो शकुन्दरस्पदे शमभिराजः शमुराजराजः शन्नो दिव्याः पार्थिभाषन्माप्याः एतविदः सत्यसवस्य विश्वे मित्रस्य वृधे वरुणस्य देवाः हेतोभगम् वीरवर्गो मलग्नः तथा द्रविणम् चित्रमस्मे अग्ने याधिरोषेण्यः एवायुम् अच्चार ब्रह्मगणा गणेन सरस्वती मरुतो अश्विनाम पृथिविमादर्थय अग्नेभ्या सर्वसवो मृणदानः विश्वादित्यादि सजोषाः अस्मद्भ्यगम् शर्म बहुलम् वियन्ता विश्वे देवाश्रमतेमघुम् हवम् मे ये अन्तरिक्षे युपद्यविष्टा ये अग्नियक्त्वायत्राः आदिध्यास्मिन्बर्हिमादरे ध्वम् आवाहात्रावरुणाहव्यजुष्टिम् नाम देवापसा वृत्त्या अस्माकम् ब्रह्मवरा अस्माकम् पृष्ठ्यासुपारा इवम् वस्त्राणपि वसामसाधे इव रक्षद्रामन्तपसर्गाः अवादरमृता विश्वामित्रावरुणाश्रयचे तत्सुवामित्रावरुणामहित्वम् ये रहभिर्निलप्ते विश्वाः अनुभवमेकप्रविधावर्त्ये यद्मगुंश्छन्नादिविदे अच्चपुंशर्मभुनस्य गोपा रतो नित्रावरुणावयेष्टम् सुशासञ्जोजे विवागुंसस्याम आनो मित्रावरुणा हव्यदादिम्व्यस्योदम् जीवसेनः आनोगव्योजिमुक्षदम् कृतेन आरोजने आलोचनेश्वमेदयुवाना मित्रा मित्रावरुणाः वेमा हिमा रुद्रायश्चरथन्वरे गिरः क्षिप्रैषमे देवाय स्वधाम्ने अषाय सहमानाय मेधुरे दिग्मायुधाय भरदाशुनोदना त्वादत्तेभिः रुद्रसन्दमेभिः शतगुम्हिमाधीयभेशेभिः यस्मद्मेशो वितरम् यगुम्भः जगीवागश्चादयस्वामिशोचेः हरिहन् विभर्भिमानश्लोके आदे विधर्मो बाणस्तूरिनाक्षमे प्रजा एमरुद्र प्रजाभिः यथा देवनि हावनश्रोर्णो रुद्रेहबोधिवीराः रुद्रस्य हेतुवृत्तमालहन् विभर्षे ममो राजानम् सूर्यो देवेनामर्यः अयोजामभ्येजपश्चराजे यत्र नरोधे वयन्तो युगानि विधन्वदे प्रति भद्राय भद्राम् भद्राश्व हरितः सौर्यस्य नमस्यन्तो विवाः पृष्ठमस्थो अयद्यावाचबीयन्ति सद्यः तत्सौर्यस्य देवत्पन्तन्महित्वम् अध्यागर्तो यदेहरितश्रुधस्थात् आद्रा क्लेवासस्तमते तन्मित्रस्य वरुणस्याभिषक्षे सूर्योपनुद्य अनन्तमन्यृवायः कृष्णमन्यद्धरितः सम्भरन्ति अध्याये वासोर्यस्य निलगमहप्रदान्यपद्यात् तन्नामित्र महन्ताम् अयस्ये उदद्योः दिवो रौ रचक्षः उदे दूरे अर्थस्तरनिर्भ्यायमालः अनुरञ्जनासूर्येण प्रसूताः आयन्नर्थानि गणवन्नपागुन्धे शम्नाभवचक्षसा सम्भवान्धाः शम्भारुणाशगम् निवादम् कृणेन यथा चोहणे वत्सोर्यन्द्रविणन्धे चित्रम् चित्रम् देवानामुदगादनेकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राद्यावान्तरिक्षम् सूर्य आत्मा जगत सत्सुरश्चनयम् गर्भम् युवतयो विभसकम् जिग्वाले जगस्वै सञ्जनेषु विरोजमानम् मनुषे नयन्ते आविष्टो वर्धते जिह्मानामोहर्धस्वयसात् उभे तुत्रः अयम् मित्रो न मस्य सुषेवः राजा सुक्षत्रोपरिष्टवेधाः तस्य वैगुण्ठपदो यज्ञस्य अपि भ्रेधो मनसे श्यामः अनमेवा स इदयामदन्तः विलग्नो आदित्यस्य पदवक्ष्यन्तः अयम् मित्रस्य सुपदौ स्यामः मित्रन्न केतुंशम् न्याघोषभव्यवज स्वाधयो विदसे अष्टजे जनन् अरे प्रेमजामवः महागुण्डादित्यो नमसोपसद्यः यातयजनागणते सुषेवः तस्मादेतत्पन्यतमाविदिष्टम् अर्गोमित्राय हविराजहोद आवागुम्प्रसौरोद्वसानः भूमा, ुक्तः विषो येण गच्छयन् देहेः कुत्रा यद्यामश्विना स्वश्वा निषदायातमर्वागस्तानिम् मधुमन्तम् विवासः अन्ताः दिवोपासदेवक्तनिभ्याः परियोषा वृणेता सोरोमिस्तवस्त्राः परियादिभक्तिः तेन महदम् यज्ञे अस्मिन् भृत्यम विद्धम् समुद्रे मेयन्ता अग्नेशोमायोवा इदम् वजसपर्यते तस्मै सुवीर्यम् विश्वयम् अग्निशोमाहविषामर्यात् देवद्रे च मनसा यो भस्य भजगौ रक्षदम् पादमगुंहसः विषेचनाय महिशर्म यक्षदम् अग्नेश मायाहुदिम् वान्दासार्थविष्कृतिम् स प्रजाम् विश्वपते अग्नेशम् वा यदमुष्णेदमसम् पणिङ्गोगतम् प्रतिन्दज्जोजलैकम् बहुभ्यः अग्नेशो मालमम् सुमे प्रथमजान पूर्वम् देवेऽभ्यमुनस्थनाभिः व्योमाददाति सै देवमावाह अहमन्नमन्नमदन्तमग्मे पूर्वमग्नेरपिदाद्यन्नम् अहमुत्तरेषु यात्तमस्त्रपदवस्तुम्भम् अश्रन् धृरा प्रचरन्दिपाकाः जहाम्यन्यजहाम्यन्यम् अहमन्नम् वसमिच्छरामि समानमर्थम् पर्येमि भुञ्चले ओ मा वन्नम् मनुष्यादयेन परागे अन्नम् निहितम् लोकयेदेवमन्नम् यदुप्यते यत्र लोप्यते शततमीषा तनोमे बभूवा महान्तौ चरोषकर्दुर्धेन पत्रौ दिवम् च पुष्णे च सागम् त्वत्सम्पिबन्तो न पिनन्ति वेधसः नैतद्भोज भवति नागणीयः अन्नम् प्राणमन्नमपानमाह अन्नम् प्रत्यन्दवदेवादमाह अन्नम् ब्रह्माह प्रजनम् प्रजानाः मोघमन्नम् विन्दते अप्रजेदाः सत्यम् केवला भवति केवलादि अहम् एकस्तनयन्वरिषन्नस्मिन् भवामित्या देवीम् वाचवचनयम् तयद्वाग्वदन्ति अहन्तामन्ता निर्मिलाम्ये यस्याम् देवादुषर्भोचनानि एकाक्षदान्तिपदाषट्पदाञ्जा वाचन् देवा उपजयवन्ति विश्वे वाचन्देवा उपजयवन्ति विश्वे वाचङ्गम् सर्वा प्रसवा मनुष्याः वाजेमाविश्वा भुवनान्यर्पिता साहवण्डतामिन्द्रपत्नी देवी अस्तु हे लोके वा भाचेणि निहिताने गजन्ति प्रियम् वाचामर्ष्या वदन्ति श्रद्धया अग्निः समिध्यते श्रद्धया मुञ्जते कविः श्रद्धाम् भगस्य मूर्धने प्रदावेदया मधे प्रियज्ञश्रद्धे ददतः प्रियज्ञश्रद्धे विनादतः प्रियम् भोजे डिज्वस इदमोजनम् कृते यथा देव असुरेषु श्रद्धामुग्नेषु च कृते एवम् भोजे डिज्वस अस्मा श्रद्धा उपाशते श्रद्धाया श्रद्धया हू श्रद्धा हवाहे श्रद्धा मध्य नंबरे श्रद्धा सौर्य सेमृले श्रद्धे श्रद्धा हवा श्रद्धा देवानिधिवस्ते श्रद्धा विश्व जगते श्रद्धा काम से अविदा वर्धयामजे ब्रह्मजज्ञानम् प्रथमम् पुरस्ता विजे पदस्वरुजा वेनावः सबुद्ध्या कुमारश्च पिष्टाः विधाविदायामृभोरयेण अन्तरिक्षम् विश्वरोपाविवेश तमर्गे अभ्यर्थन्ति वत्सम् ब्रह्मदन्तम् ब्रह्मणा वर्धयन्तः ब्रह्मदेवान् जनयत् ब्रह्मविश्वमिदम् जगत् ब्रह्म ब्राह्मण आत्मना अन्तरस्मिन्निमे लोकाः अन्तर्विश्वमिदम् जगद् ब्रह्मैव भूतानाम् ज्येष्ठम्पर्जिलम् ब्रह्म देवास्त्रेयस्त्रिविंशज ब्रह्माण्डनप्रजापते ब्रह्मण विश्वा भूतानि नावेवन्तः समाहिता ततः सहा प्रजलन्तज्ञयः इमन्ना न जानन् घृतम् विन्वन् न जलकम् सुबीरम् ब्रह्म समिद्भवत्याहुदीना आगावोतभद्रमक्रन् श्रीदन्तुश्चरणयन् तस्मैपाय स्वय पूर्वेदानाः इन्द्रायज्ञास्त्वम् मृषायते भूया भूया रजिमिदस्य अभिन्नेतमस्तृता जिरिन्द्रम् योऽयङ्गावो मे देता कृषञ्चे अश्वे सुप्रतीकम् भर्तनम् ग्रहम् प्रजापतेः सोऽयवजकम् विशन्तेः शुद्धा पशुप्रमाणे भवन्तेः मामस्तेनेषः हरिवो हेर्ये तस्य विद्याज उपेणपर्चनम् आसुकोषोपविक्षताम् उपरिषभस्य महदुमद्राजतोऽधिवे सामात्मानादस्तामचारिणाः न्न ममेयादिदेवयाः भवन्तपर्यादान्याः विपनश्ने वा भुवन्कृतो सौर्यादियन्त्राचरतो हतामतीयेदादिवः सौर्यान्द्रमदा विचक्षणा विश्ववारावलिवभावले अन्या कामापदम् रमन्तामहव्रता विश्ववपरे प्रदरनादरन्ता स्वर्मिदासरेन्द्रावम् अस्य शवो अद्य सब्दभिप्रदे क्षामापृथवे दर्शनम् अस्मै सोर्याचन्द्रमताभिचक्षेः श्रद्धेकमिन्ददर्वाभिम् भोर्वा परञ्जलमालयैत विश क्रीडन्त मर्यातोनाभिचष्टेः जायते पुनः हिरण्यवर्णा श्रेयप्पापगाया साम् राजाः यासाहम् देवाशिवेणमापश्यत आपो भद्रा यत् पश्यामि नासदाधेन्नो ददाधेत्पदाने नामापलोयते किमावरे वक्तुहरस्य धर्मेमाधेद्गहनङ्गभीरम् न भृत्यलमन्तर्हि न तस्माधान्यन्न परः किम् जनादयेदम् यदा मनसोदप्रसमयदाधेतबन्धुमधरविन्दन् ेषाम्परस्ताहा वेददेह प्रवोच कुतः जाता कुले इयम् विदर्भे अथवास्य विसर्जनाय अथ को वेदः भोम इयम् विशिष्टरिता भूव यदि वा यदि परमेरिक्षाधेन वा पशवेनष्टक्षः मनेषिणा मनसा वृक्षदेशष्टभुवनानि धारयन् ब्रह्मवनम् ब्रह्म स वृक्षाधेन यतोद्या वा पशवेनष्टक्षुः मनेषिणा मनसा विब्रवे ब्रह्माचरिच्छद्भुवनानि धारयन् प्रातरज्ञम् प्रातरिन्द्रगम् भवामहे प्रातरमिश्रावरुणा प्रातरश्मिनाः प्रादर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातःस्वाममुदरुद्रगम् भुवेमम्भगमुग्रगम् भुवेम अयम् पुत्रमजिदेशत्ताश्चम् मन्यमानः पुरश्चित् राजा नित्यम्भगम् भक्ष्येत्याह भगणेदर्भगसत्यराधः भगवेन्नाः भगः प्रणोदनजगो भिरस्मैः भगवप्रणभगवन्त्याम उदे भगवन्तः पुनः प्रविष्टमुदवन्धे दे वयम् देवानागुंसुमतो स्याम भगयम् वस्तुदेवाः येन वयम् भगवन्तः स्याम हन्ता भगतर्मयुद्या भवेमि समाभगपुरयेता भवेः य वषतोनुमन्दा पतिकाव्य पशुजये पदाय कर्वाजेन वचमिदम्भगन्नः वाजिनः वहन्तो अश्वापदे गोमदे अन्नभिषासः वीरवते षडमुक्षन्तु भद्राः कृतम् दुहानाविश्वरीनाः भूयम्पादस्वस्थ्यस्तदानः समाप्तः